नारायणोपनिषत् श्रीगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनावधितमस्तु मा विद्विचावहे ए ॐ शान्तिः शान्तिः शान्तिः हरी ओ अथ पुषोह वै नारायणो काम यत प्रजा सृजेती प्राणो जायते मनसर्वेन्द्रिया चंवायुर्ज्योतिरापृथिवी विश्व धारिणी नारायणा ब्रह्मा जायते नारायणा रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणाद्वादशादित्या रुद्रावशव सर्वाणि च छन्दागंसे नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवस्य नारायणः शक्रश्च नाराजणः ध्यावापृथिव्यौ च नाराजणः कालश्च नाराजणः दिशश्च नाराजणः ऊर्ध्वश्च नाराजणः अधश्च नाराजणः अन्तर्बहिश्च नाराजणः नारायण एवेदगं सर्वं यद्भूतै भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यातं शुद्धो देव एको नारायणः नाद्वितीयोऽस्ति कश्चित् य एवं वेद सविष्टुरेव भवति सविष्टुरेव भवति ओम् इत्यग्रे व्याहरे नम इति पश्चान् नारायणायेत्युपरिष्टान् ॐत्तेकाक्षरं नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरं पदम् योहवै ह वै नारायणस्याष्टाक्षरं पदमध्येति अनपभं वसर्वमायुरेति विन्दते प्राजापत्यगं राजपूष गोपत्यं ततो मृतत्वमस्तुते ततो मृतत्वमस्तुत इति य एवं वेद प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् अकार उकारमकार इति तानि कथां समभरत्तदे तदोमिति यमुक्त्वा मुच्यते योगे जन्मसंसारवन्दनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकं गमिष्यति तदिदं परं पुण्डरीकं विज्ञानगणम् तस्मान्तदिदामन्मात्रम् ब्रह्मण्ड्यो देवकी पुत्रो ब्रह्मण्ड्यो मधुसूदनो सर्वभूतस्तमेकं नारायणं कारणरूपमकारं परब्रह्मो एतदधर्वशिरो यो धीते प्रातरधियादो धी रातृकृतपापं नाशयति सायमधियालो दिवसकृतं पापं नाशयति माध्यन्दिनमादित्याभिमुखो धीयानः पञ्चपातकोपपातका आ प्रमुच्यते सर्ववेदपारायणपुण्यं लभते नारायण सायुज्यमवाप्नोति नारायण सा यत्क्यपनिषत् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ